अश्रौ श्रीस्व राजधर्मा वै मनुरब्रवीत निकृतिसंपन्नान विहितान क्रूरान्कृतिसंपन्नाता नश्का धातराष्ट्रान्माराज क्षमसे कर्तव्ये कर्तव्येष व्याघ्र पीठ सर्पवत् बुद्ध्या वीर्येण संयुक्तश्रुतेनाभिजनेन च तृणानाम् मुष्टिनैकेन हिमवन्तम् च पर्वतम् छन्नमिच्छसि कौन्तेय योऽस्मान् संवर्तुमिच्छसि अज्ञातचर्यागूढेन पृथिव्यांविश्रुतेन च दिवीवपार्थसूर्येण न शक्याचरितुम् त्वया बृहच्छाल इवा नूपे शाखापुष्पपलाशवान् हस्तीश्वेत इवा ज्ञातः कथञ्जिष्णुश्चरिष्यति इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशु न कुलः सह देवश्च कथम् पार्थचरिष्यतः पुण्यकीर्तीराजपुत्री द्रौपदी वीरसूर्यम् विश्रुता कथमज्ञाता कृष्णा पार्थचरिष्यति माम् चापि जानन्ति ह्याकुमारमिमाः प्रजाः ज्ञातचर्याम् पश्यामि मेरोरिव निगूहनम् तथैव बहवोऽस्माभिः राष्ट्रेभ्यो विप्रवासिताः राजा नो राजपुत्राश्च धृतराष्ट्रमनुव्रताः न हि तेऽप्युपशाम्यन्ति निकृता